हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे षट्त्रिंशत् सर्गः बाल्यवन्तं निर्भस्य नगरगुप्तिं विधाय रावणस्य निजान्तपुरे गमनम् तत्तु बाल्यवतो वाक्यम् हितम् उक्तम् दश नदर्शयति कालस्य वशमागतः स बद्ध्वा वक्त्रे क्रोधस्य वशमागतः अमर्चात् परिवृत्ताक्षु बाल्यवन्तम् अथब्रवीत् हितबुद्ध्यः यदहितम् वच परुषमुच्यते परपक्षम् ब्रविशैव नैतत् श्रोत्रे मम मानुषम् कृपणं रामम् एकम् शाखा मृगाशुयम् समर्थम् मन्यसेकेन त्यक्तम् पित्तावनाश्रयम् रक्षसा ईश्वरम् मां च देवानां च भयङ्करम् हीनम् सर्वविक्रमे वीरद्वेषेण वा पक्षपातेन वा रिपुः त्वयाहं पुरुषान् वा प्रभवन्तम् परस्थम् हि परुषम् कोऽभिभाषते पण्डितशास्त्रतत्त्वज्ञो विना प्रोत्साहनेन वा आनीय च वनासीताम् पद्महीनाम् इव श्रियम् किमर्थम् प्रतिदास्यामि राघवस्य भयादहम् उत्तम् वा नरकोटिभिः स सुग्रीवम् स पश्य कश्चिदोभिश्च राघवं नियतं मया द्वन्द्वे यस्य न तिष्ठन्ति दैवतान्यपि संयोगे स कस्मात् रावणो युद्धे भयम् आहारयिष्यते द्विधा भज्येयम् मन्त्येवं नमेयम् तु कस्यचेत् एष मे स जो दोष स्वभावो यदि तावत् समुद्रे तु सेतुर्बद्धो यदृच्छय रामेण विस्मय कोत्र येन ते भयमागतं स तु ते पार्णवं राम सहवानरसेन प्रति सत्यं न जीवन् यास्यति एवं रवाणं संरब्धं रुष्टं विद्याय रावणम् व्रीडितो माल्यवान् वाक्यम् नोत्तरं प्रत्यपद्यते पद्यते वर्धयित्वा यथोचितम् माल्यवान्नभ्यनुज्ञातो वर्धैत्वा यतोचितं निवेशनम् रावणस्तु स मात्यु मन्त्रयित्वा विमृश्य च लङ्काया स्वतदा गुप्तिम् कारयामः शस्य राक्षसः व्याधिदेश च पूर्वस्याम् प्रहस्तम् द्वारि राक्षसम् दक्षिणास्याम् महावीर्यो महापार्श्व महोदरो पश्चिमायाम् अथद्वारि पुत्रम् इन्द्रजितम् तथा व्याधिदेश महामायम् राक्षसै बहुभिवृतम् उत्तरस्याम् पुरद्वारि व्याधिश्य शुकसारणै स्वयं चात्र गमिष्यामि मन्त्रिणे सानुवाच राक्षसम् तु विरूपाक्षम् महावीर्य पराक्रमम् मध्यमे स्थापयन् गुर्मे बहुभिः सह राक्षसै एवं विधानं लङ्कायां कृत्वा राक्षसभङ्गव कृतकृत्यमिव आत्मानम् मन्यते कालचोदितः विसर्जयामास ततः मन्त्रिणो विधानमाज्ञाप्य पुरस्य पुष्कलम् जया शिक्षा मन्त्रिगरणेन पूजितौ विवेश सोऽन्तः पुरं रुद्धि मन्दं मन्म इत्या श्रीमद्